तत स्वयंवरे वृत्ते थार्तराष्ट्र स्म भारत मंत्रय कर्णसौ बल कश्चिच्छत्रुः कर्षणीयः पीडनीयस्तथा परः उत्साधनीयाः कौन्तेयाः सर्वे क्षत्रस्य मे मताः पराजिताः सर्वे यदि यूयं गमिष्यथा अकृत्वा संविदं काञ्चित् तद्वस्तप्स्य अयम् देशश्च कालश्च पाण्डवोद्धरणायनः न चेदेवम् करिष्यध्वम् लोके हास्या भविष्यथ यमेते संश्रिता वस्तुम् कामयन्ते च भूमिपम् स्वल्पवीर्यबलो राजा द्रुपदो वैमतो ममा यावदेतान्न जानन्ती, जीवतो वृष्णिपुङ्गवाः चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् एकीभावम् गता राज्ञा द्रुपदेन महात्मना दुराधर्शतरा राजन् भविष्यन्ति न संशयः यावदत्वरताम् सर्वे प्राप्नुवन्ति न तावदेव व्यवस्यामः पाण्डवानां वधं प्रति गृहाद्विशेत् तेषामिहोपयातानामेषां च पुरवासिनाम् अन्तरे दुष्करं स्थातुम् मेषयोर्महतोरिव हलधृ प्रगृहीतानि बलानि बलिनाम् स्वयं यावन्न कुरु सेनायाम् पतन्ति पतगा